व्रीहिद्रौणिकमाख्यानमैन्द्रद्युम्नम् तथैव च द्रौपदीहरणम् पर्व जयद्रथ विमोक्षणम् पतिव्रताया माहात्म्यम् सावित्र्याश्चैव मद्भुतम् रामोपाख्यानमत्रैव पर्व ज्ञेयमतः परम् कुण्डलाहरणम् पर्व ततः परमिहोच्यते आरणेयम् ततः पर्व, पर्व वैराटम् तदनन्तरम् पाण्डवानाम् प्रवेशश्च समयस्य च पालनम् कीचकानाम् वधः पर्व पर्व गोग्रहणम् ततः अभिमन्योश्च वैराट्याः पर्व स्मृतं। स्मृतम् उद्योगपर्व विज्ञेयमत ऊर्ध्वम् महाद्भुतम् ततः संजययानाख्यं पर्व ज्ञेयमतः परम् प्रजागरम् तथा पर्व चिन्तया पर्वसानत्सुजातम् वैगुह्यमध्यात्मदर्शनम् यानसन्धिस्ततः पर्व भगवद्यानमेव च मातलीयमुपाख्यानम् चरितम् गालवस्य च सावित्रम् वामदेव्यम् च वैन्योपाख्यानमेव च जामदज्ञमुपाख्यानम् पर्व षोडशराजिकम् सभाप्रवेशः कृष्णस्य विदुला पुत्रशासनम् उद्योगः सैन्यनिर्याणम् विश्वोपाख्यानमेव च ज्ञेयम् विवादपर्वात्र कर्णस्यापि महात्मनः निर्याणम् च ततः पर्व कुरु पाण्डवसेनयोः रथातिरथसङ्ख्या च पर्वोक्तम् तदनन्तरम् उलूकदूतागमनम् पर्वामर्शविवर्धनम् भीष्माषेचनम पर्व ततभुतच्य